गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परब्रह्म तस्मै श्रीगुर्वी नमः अखण्डमण्डलाकारम् व्याप्तं येन चराचरम् तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशरापया चक्षुरुन्मिलितं येन तस्मै श्रीगुरवी नमः ब्रह्मानन्दं परमशुकदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशम् त्वमस्यादिलक्षम् एकम् नित्यं विमलमचुलं सर्वधि साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं प्रवामि शरीरम् सदारोगुक्तम् यशारुचैत्रम् धनं मे ऋतुल्यं गुरोरङ्गपद्मे मनश्चेर्नग्नं तत किम् तत किं तत किं तत किं कलत्रं धनं पुत्र पोत्रादिसर्वम् गृहं बान्धवा सर्वामेतधिजातं गुरोरं मनश्चे न लग्नं तं तं तत किं तत किं षडङ्गादिवेदो मुखेशास्त्रवेद्या पवितं च गद्यं गुजोरङ्गलग्नं तं तं तत किं तत किं विदेशेषु माण्य सदेशेशु धन्य सदा च रविते मचो न चान्यं गुरोरङ्गीपद्मे मनश्चे न लग्नं ततकिम् ततकिम् ततकिम् किं तत किं तत सदा सेव पादारविन्दं गुरोरङ्गमे मनस्य न लग्नं तं तं तत किं तत किं यशोमे गतं देक्षु लालप्रतापा जगद्वस्तु सर्वं करीयप्रसादा गुरोरङ्घ्रिपद्मे मनस्य नरग्नं तत किं तत किं तत किं तत न भोगे न योगी न बाबा जिबेदे न कान्ता सुखेन सुचेतं गुरोरङ्ग्नं तत किं तत किं तत किं अरण्ये ल गेहे न कार्ये न देहे प्रणोवल ततिमे प्रदर्घे गुरुरङ्गग्नं tatakim <tries> tatakim tatakim tatakim tatakim tatakim tatakim tatakim tatakim